शूनापतिं पापनाशं परेशं जलेन्द्रस्य कृत्तिं प्रसारं वरेण्यं जटाजूटमध्ये स्फुरद्गाङ्गवारीं महादेवमेकं स्मरामि स्मरामि महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषं विरूपाक्षमिन्द्वर्कवन्नि त्रिनेत्रं सदानन्दमीडे प्रभुं गिरीशं गणेशं गणे नीलवर्णं गवेन्द्राधिरूढं गणातीतरूपं भवं भास्वरं भस्वनाभूषिताङ्गं भवानी कळत्रं भजे पञ्चवक्त्रम् शिवाकान्तशम्भोषशाङ्कार्धमौ महेशानशूलिन् जटायूटधारिन् त्वमेको जगद्व्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप मेकं जगद्बीजमाद्यं निरीहं निराकारमोङ्कारवेद्यं यतो जायते पाल्यते येन ये विश्वं तमीशं भजे लीयते यत्र विश्वम् न न चापो न वह्निर्न वायु न चाकाशमस्ते न तन्द्रा न निद्रा न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं दमीडे जं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानां तुरीयन्तमः पारमाद्यन्तहीनं प्रपदे परं पावनं द्वैतहीनम् नमस्ते नमस्ते विभो विश्वमूर्ति नमस्ते नमस्ते चिदानन्दमूर्ति नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य भो शूलपाणि विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र शिवा कान्तशान्त स्मरारे पुरारे त्वदन्यो वरेण्यो नो नम्भो महेश करुणामय शूलपाणि गौरीपते पशुपते पशुपाशनाशिं काशीपते करुणया जगदेतदेकस्त्वं हंसिपासि विदधासि महेश्वरोऽसि त्वत्तो जगद्भवति देवभव स्मरारे त्वय्यैव जगन्मृड विश्वनाथ त्वय्यैव गच्छति लयं जगदेतदिश लिङ्गात्मकं हरचराचरविश्वरूपिम्